श्रीहरे नमः अत अष्टमोऽध्यायः सौनकौ सूतजीवचिरं साधो वतनो वदतां वरा तमस्य पारे भ्रमतां नृणां त्वं पारदर्शनः आगुश्चिरायुषं ऋषिं प्रकण्डतनयं जनाः यः उर्वरितो येन ग्रस्तमिदं जगत् स वा असमत्कुलोत्पन्नं कल्पेऽस्मिन् भार्गवर्षभः नैवाधुनापि भूतानां संप्लवः कोऽपि जायते एक एवार्णवे भ्राम्यन् दधश्च पुरुषं किल वडपत्रपुटेतोकं शयानं त्वेकमद्भुतं येष नः संशयो भूयान् सूतकौतूहलं यतः तं नश्चिन्धिमहायोगिन् पुराणेष्वपि सम्मतः सुदौ प्रश्नस्त्वया महेर्षेयम् कृतालोकभ्रमापकः नारायणकथा यत्र गीता प्राप्तद्विजातिसंस्कारो मार्कण्डेयपि छन्दांसि अधीत्यधर्मेण तपस्वाध्याय संयुतः बृहत् व्रतधरः शान्तो जटिलो वल्कलाम्भरः उपवीतं समेकलम् कृष्णाजिनं साक्षसूत्रं कुशां च नियमर्दयेन् अग्नर्क्य गुरिविप्रात् अश्वर्चयन् सन्त्ययोर्हरिं सायं प्रातः स गुरवे भक्ष्यम् आहृत्य वाक्यधः बुभुजे कुर्व नो ज्ञात सकृन्नो चेदुपोषितः एवं तपः आराधयन् ऋषिकेशं जिज्ञे मृत्युं सुदुर्जयं। ब्रह्मा भृहुर्भवो धक्षेर्ब्रह्मपुत्राश्च ये परे मृदेव पितृभूतावनि तेनासन् अतिविस्मिताः इत्थं बृहत्परदधरस्तपक्स्वाध्याय संयमैः दद्यावदोषजं योगी ध्वस्तक्लेशान्तरात्मना तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः व्यतीयाय महान् काल मन्वन्त्रषढात्मकः एतत्पुरन्तरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे तपो विसङ्खितो ब्रह्मन् आरेभे तत् गन्तर्वाप्सरसकामम् वसंतं मलयानिलौ मुनये प्रेषयामास रजस्तोकमधौ तत ते वै दताश्रमं जग्मोर्हिमाद्रे पार्श्ववुत्तरे पुष्पभद्रानदीयत्र चित्राख्यासशिला विभो तदाश्रमपदं पुण्यं पुण्यद्द्रुमलधाञ्छितं पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयं मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितं मत्तर्हि नटाटोपं मत्तद्विजकुलकुलं वायुप्रविष्ट आधाय हिमनिर्झरसीकरान् सुमनोभिपरिष्वक्तो ववौ वृत्तं भयं स्मरम् उद्यच्छन्द्रनिशावक्त्र प्रवालस्तभकालिभिः को भद्रुमलताजालैस्तत्रासीत्कुसुमाकरः अन्वीयमानो गन्धर्वै अदृश्यतात्तचापेषु स्वसे त्रियूतपतिः स्मरः हुद्वाग्निं समुपासीनं ददृशुः सङ्क्रकिङ्कराः मीलिताक्षं दुरादर्शं तिमन्दमिव अनलं ननृतुस्तत्स्य पुरत स्त्रियोतो मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमं सन्दतेस्त्रं स्वधनुषे कामः पञ्चमुखं तधा मधुर्मनोरजस्तोक क्रीडन्त्या पुञ्जिकस्तल्या कन्दुकैस्तनगौरवाद् भ्रसमुद्विघ्नमध्याया केशविश्रंसिधस्रजः इतस्ततो भ्रमदृष्टेश्चलन्त्या अनुकन्दुकं वायुर्जहारतद्वासूक्ष्मं त्रिडितमेकलम् विससर्जतथा मत्वा तं स्वजितं स्मरहा सर्वं तत्राभवन् मोघमनीषस्य यदोत्यमः तैत्तम् अपकुर्वन्तो मुनेस्तत्तेजसो मुने दह्यमानानि ववृथुः प्रभोत्याव अर्भकाः इतीन्द्रानुचरे ब्रह्मन् दर्शितोपि महामुनिः यन्नागातः मोभावं भावं न तच्चित्रमहत्सुहे दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समघात्परम् तस्यैवं युञ्जतश्चित्तं तपस्वाध्याय संयमैः अनुग्रहाय आविरासेन नरनारायणो हरिः तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौरौ वल्कलाम्भरौ पवित्रपाणि उपवीतकन्द्र त्रिवृत्कमण्डलुं दण्डमृजं च वैणवम् पद्माक्षमालामुदजन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ तपद्धडित्वर्णभिषङ्गरोचिषा प्रांसु दधानौ तेवै ते वै भगवतो रूपे नरनारायणा वृषे दृष्ट्वोत्थायाधरेणाश्चैर्ननामाङ्ग्येन ना दण्डवत् सतत्सन्तर्शनानन्द निर्वृतात्मेन्द्रियासयः कृष्टरोमाश्रुपूर्णाशो न सेहे तावदीक्षितुम् उत्थाय प्राञ्जलिप्रह्व औत्सुक्यादाश्लिशन्निव नमो नम ईशानो भभाषे गद्गताक्षरः गत तयोरासनमाधाय आदयो अवनिज्य च अर्ह्येण नानुलेपेन धूपमाल्यैरपूजयत् सुखमासनमासीनौ प्रसादापि मुखौ मुनिः पुनरानम्य पादाभ्यां गरिष्ठाविधमब्रवीत् मार्कण्डेय उवाच किं वर्णये तव विभोय दुरीतितोऽसून् संस्पन्दे तमनुवाङ्मन इन्द्रियाणि स्पन्दन्ति वै तनुबृजतामज सर्वयोश्च स्वस्यास्य तापि भजतामसि भावबन्धुः मूर्ति मे भगवतो भगवन्स्त्रिलोक्यां क्षेमाय तापविरमाय च मृत्युजित्यै नानापि पर्श्यवितुमन्यतनोर्यदिं श्रुष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः तस्यावि तु स्थिरचरेसितुरङ्घ्रिमूलं यस्तं न कर्म गुणकालरुजस्पृशन्ति यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीष्णं ध्यायन्ति वेदहृदयामुनयस्तदाप्त्यै ्यं तवाङ्पनायाधवर्गमूर्ते क्षेमं जनस्य परितोभियीश विद्मः ब्रह्मोऽपित्यलमतोऽ द्वि परार्तदिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानां तत्त्वयि भजामृतधियस्तव पादमूलम् हित्वेतमात्मच्च दिशात्मगुरोः देहोत्यपार्थम् असदन्त्यमभिज्ञमात्रम् विन्ते ते तर्हि सर्वम् अनीक्षितार्थम् सत्त्वम् रजस्तम इति स तवात्मबन्धो मायामयास्तिलयोदय हेतवोऽस्य लीलाधृतायतपि सत्त्वमयि प्रशान्त्ये नान्ये नृणां तस्मात्तवेह भगवन्न तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति यत्सात्वता पुरुषरूपं सन्ति स त्वं लोको यतोपयमुतात्मसुखं न चान्यत् तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदेवतायै नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय यं वै न भेद वितता शपथैर्भ्रमध्ये सन्तं तन्मायया वृतमतिः स उये दास्यस्तवा किल गुरोरुपसाध्यवेधं यद्दर्शनं निगम आत्मरः प्रकाशं मुह्यन्ति यत्र कवयो जपारयतन्तः तं सर्ववादविषयः प्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् इति श्रीमद्भागवते महापुराणे द्वादशस्कन्ते अष्ट्र सर्वत्र गोपिका जीवनस्मरणं स्मरण गोविंद गोविंद की जय